द्वितीयश्लोकः त्वय्यरुणाचल सर्वम् भूत्वा स्थित्वा प्रलेनमेतच्चित्रम् हृद्यहमित्यात्मतया नृत्यसि भोस्ते वदन्ति हृदयम् नाम द्वितीयश्लोकस्यानुवादः उदेति वर्तते प्रलीयतेऽखिलम् जगच्चलम् त्वयि प्रकाशवत्पटे यथैव चित्रसन्ततिः अहन्तयात्मरूपतोऽपि नृत्यसि स्वयम् हृदि वदन्त्यतो हृदाख्यकम् भवन्तमेककम् परम् वार्तिकम् बहवः प्रतिबध्यन्ते मन्वानाः सदिदम् जगत आत्मनाशपदम् केचिद्दिदम् मत्वा च बिभ्यति शङ्काद्वयनिराशाय द्वितीयश्लोक एरितः तटस्थलक्षणम् चात्र दिश्यते परमात्मनः स्वरूपलक्षणम् चापि शुद्धम् भक्तिविवृद्धये स्वतः सत्यम् जगन्मत्वा तस्याधिष्ठानमव्ययम् न पश्यत्यविवेकीति तत्तत्त्वमुपदिश्यते जीवेशौ विषयाश्चेति त्रितयं जगदाख्यकम् आरोपितमिदम् सर्वमधिष्ठाने चिदात्मनि स्वरूपं जगतः सत्यं सच्चिदात्मैव केवलः अतोऽन्वेषेण लब्धव्यो विहायेदम् स एव हि दृश्यते जगदित्येतत् तत्सत्ताम् नैव साधयेत् अधिष्ठानम् किमप्यस्तीत्येतदेव हे साधितम् प्रतीयते यथा यद्यत् तत्तथेत्यप्रमाणकम् वैज्ञानिकजनैश्चापि स्पष्टमेतन्निरूपितम् बहिर्मुखतया ते तु भेदज्ञानपरायणाः न स्वं वेदितुमिच्छन्ति ज्ञानम् तेषामतो मृषा साक्षात्कृतमधिष्ठानम् जगतो येन बोधतः प्रमाणीकृत्य तद्वाक्यम् तथा निष्ठां लभेमहि अधिष्ठानसदद्वैतम् निर्विशेषम् निरंशकम् जगद्रूपतया भाति मनो व्यापारमात्रतः मन एव स्वयम् माया यान्यथा कुरुते परम् ज्ञायताम् तदिदं स्पष्टम् जगदभानतः उदेति वर्तते तस्मिन् लीयते चाखिलम् यतः स एवात्मा ततः सर्वम् जीवेशौ विषया अपि मायाकार्यमिदम् यस्मात् केवलोऽसावविक्रयः बाध्यते किञ्चित् पटश्चित्राग्निना यथा तदा भासमयम् चेदम् स एव परमार्थतः मध्ये चेदम् तदेव हि विश्वम् विवेकदृष्ट्यैवम् स्वात्मनि प्रविलापयेत् प्रविलापनदृष्ट्या हि स्वान्वेक्षणक्षमं मनः स्वान्वेषणस्य चात्रैव प्रकार उपदिश्यते तेन स्वरूपेवस्थानं जगद्भ्रमविनाशतः तटस्थलक्षणम् दिष्टम् एवम् तस्य परात्मनः स्वरूपलक्षणम् त्वत्र सूचितम् चोपलक्ष्यते स्वरूपम् तत्स्फुटीकुर्वन् शिवस्य परमात्मनः तस्यैवात्मत्वमस्माकम् दर्शयत्यतिशोभनम् आत्मत्वेनाखिलः स्यान्तः अहमित्यनिशम् स्वयम् भात्यसौ नान्य आत्मास्ति स्वरूपम् तदिदम् विभोः नृत्यशीतिपदे नात्र दिष्टानन्दस्वरूपता आत्मभूतस्य तुर्यस्य तदसंसारितात्मनः स्वयैव मायया देवो विमोहित इव स्वयम् भ्रमते वात्रसंसारे मायासौ न तु विद्यते अर्थाद्व्यावर्तनम् चापि देहादीनामनात्मनां कृतमेवेत्यतस्तेषु जह्यादात्मत्वभावनाम् सर्वे वयं स एव स्मो न देहानापि देहिनः नाज्ञानम् न ना च संसार इत्येषा परमार्थता मनः कल्पयते देहान् जीवांश्च हो जाग्र चिपि यथा स्वप्ने मायैषा मन एव हि शुद्धचिद्रूप आत्मैव सत्यो नान्यस्ततः शिवः एष वेदान्तसिद्धान्त उक्तस्वीयानुभूतितः प्रेष्ठ आत्मैव सर्वेषाम् तदर्थम् इतरत्प्रियम् अत आनन्दरूपत्वं आत्मनो गम्यते स्फुटम् तदानन्दकणा एव यानन्दालौकिकाः स्मृताः आत्मलावसमो नास्तेत्यत एवोच्यते बुधैः बहिर्मुखत्वहानाय दिश्यते हृदि तत्स्थितिः अन्तर्मुखतया एव साधने सम्प्रवर्तनम् परमार्थतया त्वेष परमो हृदयं स्वयं सर्वाधारस्य सत्यस्य मिथ्यैवाधारकल्पना